त्रयस्त्रिंशच्च वै देवास्तथा वै मानिकागणाः सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः उपयान्त्यर्चयित्वा तु त्वाम् वै प्राप्तमनोरथाः गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः ते पूजयित्वात्वामेव त्वामेव गच्छन्त्याशु प्रधानताम् वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः वालखिल्यादयः सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च न तद्भूतमहम् मन्ये यदर्कादतिरिच्यते सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च न तथा दीप्तिः प्रभावो वा यथा ज्योतीम् श्रीत्वयि सर्वाणि त्वम् सर्वज्योतिषाम्पतिः त्वयि सत्यम् च सत्त्वम् च सर्वे भावाश्च सात्विकाः त्वत्तेजसा कृतम् चक्रम् सुनाभौ विश्वकर्मणा देवारीणाम् मदो येन नाशितः शार्गधन्वना मादायाम् शुभिस्तेजो निदाघे सर्वदेहिनाम् सर्वौषधिरसानाम् च पुनर्वर्षासु मुञ्चसि तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये तथाघनाः विद्योतन्ते प्रवर्षन्ति तव प्रावृषिरश्मयः